प्रत्यक्षं हि त्वया दृष्टरुषिर्गच्छन् महातपाः मार्काण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविता व्यासो वसिष्ठ मैत्रेयो नारदो लोमशुकः अन्ये च ऋषयः सर्वे धर्मेणैव सुचेतसः प्रत्यक्षं पश्यसि ह्येतान् दिव्ययोगसमन्वितान् शापानुग्रहणे शक्ता देवेभ्योऽपि गरीयसः एते हि धर्ममेवादौ वर्णयन्ति स दानघे कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः अतो नार्हसि कल्याणि धातारन्धर्ममेव च राज्ञिमूढेन मनसा क्षेप्तुं शङ्कितुमेव च उन्मत्तान्मन्यते बालः सर्वानागतिनिश्चयान् धर्माभिशङ्को नान्यस्मात् प्रमाणमधिगच्छति आत्मप्रमाण उन्नद्धश्रेयसो ह्यवमन्यक इन्द्रियप्रीतिसम्बद्धं यदिदं लोकसाक्षिकम् एतावन्मन्यते बालो मोहमन्यत्र गच्छति प्रायश्चित् तन्न तस्यास्ति यो धर्ममभिशङ्कते ध्यायन् सकृपणः पापो न लोकान् प्रतिपद्यते प्रमाणाद्धिनिवृत्तो हि वेदशास्त्रार्थनिन्दकः कामलोभातिगोमूढो नरकं प्रतिपद्यते यस्तु नित्यङ्कृतमतिर्धर्ममेवाभिपद्यते अशङ्कमानः कल्याणि सोमुत्रानन्त्यमश्नुते